श्रीहरये नमः अथ अष्टपञ्चाशत् धमोऽध्यायः श्रीशुक उवाच ये गता पाण्डवान् द्रष्टुं प्रीतितान् पुरुषोत्तमः इन्द्रप्रस्थं गतश्रीमान् योधानादिभिर्व्रतः यो दृष्ट्वा तमागतं पार्था मुकुन्दं अखिलेश्वरम् उत्तस्तुर्युगभद्वीरा प्राणामुख्यमिवा गतं परिष्वज्याच्युतं वीरा अङ्गसङ्कतेन सह सानुरागस्मितं वक्त्रं वीक्ष मुधं ययुः युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दना भी फाल्गुनं परिरभ्यथ यमाभ्यां चाभिवन्दितः परमासन आसीनं कृष्णा कृष्णमनिन्दिता नभोढाव्रीटिता किञ्चेत् स नैत्रेत्याभ्यवन्दत तथैव सात्यकिप्पार्थै निशसाद आसने अन्ये पूजिता पर्योपासदा वृथां समागत्य कृतापि वादनस्थयातिहार्द्रात्र दृशाभिरम्भितः आपृष्टवान् स्तां कुचलं सकस्नुषां पितृष्वसारं परिपृष्टबान्धवः तमाखप्रेम वैक्लव्य रुद्रकण्टाश्रुलोचना स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्मदर्शनं तदैव कुचलं नोद्भूत् सनातास्ते कृता कृष्ण भ्राता मे प्रेक्षितस्त्वयं न तेऽस्ति स्वपरभ्रान्तेर्विश्वस्य सुहृदात्मनः तथापि स्मरतां शश्वत् क्लेशां हंसे कृति किं न आचरितं श्रेयो न वेदाघमदीश्वर योगेश्वराणां दुर्दर्शो यन्नो दृष्टकुमेधसाम् इति वै वार्षिकान्मासान् राज्ञा सोऽव्यर्तितः इन्दप्रस्तौ कषां विभुः एगतरथमारुह्य विजयो वानरध्वजं गाण्डीवं धनुराधाय तोणौ च अक्षय सायकौ साकं कृष्णेन सन्नद्धो विकर्तु विपिनं वनम् बहुव्याळं मृगकीर्णं प्राविसत्परवीरहान् तत्र विद्यच्छरैर्व्याघ्रान् सुकरान् महिषान् रुरोन् सरभान् गवयान् खड्गान् हरिणान् च ससल्लकान् तान्निन्यु किङ्करज्ञे मेद्यान् पर्वण्युपगते त्रि परित परिश्रान्तो बिबत्सुर्यमुनामग तत्रोपस्पृश्य विसधं पीत्वा वारिमहारथौ कृष्णौ धतृसतुः कन्यां चरन्तीं चारु दर्शनां तामासाद्यवरोहा सुद्विजामृचिरान पप्रेक्षितः सख्या पाल्गुनप्रमदोत्तमा का त्वं कस्यासि शुश्रोणी कुतोऽसि किं सिकीर्षसे मन्ये सर्वं कथय शोभने अहं देव्यस्य स पितोर्दुहिता पतिमिच्छ विष्णुं वरेण्यं वरतं तपः परममास्तिता नान्यं पतिं वृणे वीर तमृते श्रीनिकेतनौ तुष्यतां मे मुगुंतो भगवान् नाथ संश्रयः काळिन्दीति समाख्याता वसामि यमुना जले निमिर्ते भवने पित्रा यावत् अच्युतदर्शनं तथावदद्गुटकेशां वासुदेवाय सोपितां रथमारोप्य तद्विद्वान् धर्मराजमुपागमद् यथैव कृष्णसन्दिष्ट वार्तानां परमाद्भुतं कारयामासनगरं, विचित्रं विश्वकर्मणा भगवांस्तत्र निवसन् स्वानां प्रियचिकीर्षया अग्नगे काण्डवं दातुम् अर्जुनस्यासारधिः सोऽग्निस्तुष्टो धनुरधात् हयान्श्वेतान् रथं नृप अर्जुनायाक्षयौ तोणौ वर्म चा मेद्यमस्त्रिभिः मयश्च मोचितो वग्ने शभां यस्मिन् दुर्योधनस्यासीत् जलस्तलदृशि भ्रमः स तेन समनुज्ञात सुहृद्भिश्चानुमोदितः आययौ द्वारकां युभूय सात्यके प्रमुखैर्व्रतः अतोपयमेकालिन्दी सुपुण्यर्तृषवूर्जिते वितन्वन् परमानन्दं स्वानां परममङ्गलं विन्दानुविन्दौ वावन्त्यौ दुर्योधनवसानुगौ स्वयंवरे स्वभगिनीं कृष्णे सत्तां न्यषेधता राजातिदेव्यास्तनयां मित्रविन्दापितृष्वसुः प्रसख्यहृतवान् कृष्णो राजन्द्राज्ञां प्रपश्यतां नग्नजिन्नाम कौसल्य आसीत्रा जातिधार्मिकः तस्य सत्याभवत्कन्या देवी नाग्नजितीन्रप न तां सेकोर्नपावोढुम् अजित्वा सप्त तीक्ष्णशृङ्गान् सुदुर्दर्शान् वीरगङ्गा सहान् कलान् तां श्रुत्वा वृषजिल्लभ्यां भगवान् सात्वां पतिहे पतिः जगामकौसल्यपुरं सैन्येन मतावृतः स कोसलपतिः प्रत्युत्थान आसनादिभिः अर्हणो नापि गुरुणा पूजयन् प्रतिनन्दितः वरं विलोक्याभिमतं समागतम् नरेन्द्रकन्या च रमापतिम् रमापतिं पतिराशिनो नलः करोतु सत्यायति मे ध्रुवो व्रतैः यत्पादपङ्गजरझशिरशापि भर्ति श्रीरब्जसि गिरिससखलोकपालैः लीलातनुः स्वकृतसेतुपरीप्स एष काले द तत्स भगवान् मम केन तुष्ये अर्चितं पुनरित्याह नारायणजगत्पते आत्मानन्दने पूर्णस्य करवाणि किमल्पकः श्रीसुक उवाच तमाह भगवान् कृष्ण कृतासन परिग्रहः मेघकम्भीरया वाचा सस्मितं कुरु नन्दनः श्रीभगवानुवाच नरेन्द्रयाज्ञा कविभिर्भिगर्हिता राजन्यबन्धोर्निजधर्मवर्तिनः तथापि याचे तव सौहृदे च या कन्यां त्वदीयां राजोवाच कोण्यस्तेभ्यतिको ना गुणैः कदाम् नो यस्याङ्गे श्रीर्वसत्यनपायिनि किं त्वस्माभि कृतः पूर्व समयसात्त्वतर्षभा पुंसा वीर्यपरीक्षार्थं कन्यावरपरीप्सया सप्तैते गोवृषा वीर दुर्धान्ता धुरवग्रहाः Ye tair bhagnasu bhagavu binnagatranrapadma jaham Ye dimenik rikita syos twayay vayadunandana वरो भवानबिम्मतो दुहितुर्मे श्रियः पते एवं समयमाकर्ण्य भक्त्वा परिकरं प्रभुः आत्मानं सप्तधा कृत्वा जगृह्नात् लीलयैव तान् भक्त्वा तान् व्यकर्षल्लीलया बद्धान् बालो दारुमयान्यत ततः प्रीतः सुतां राजा विस्मितः तां प्रत्यग्रगणाद्भगवान् विधिवत् सदृशीं प्रभुः राजपत्न्यश्च दुःखितु कृष्णं लब्ध्वा प्रियं पतिम् लेबिरे परमानन्दं जातस्य परमोत्सवः शङ्कभैर्यानखानेधुर्गीतवाद्वदिजाशिषः नरा नार्यप्रमुदिता सुवासश्रगलङ्कृताः दशधेनुसहस्राणि पारिपर्कमधात् विभुः युवतीनां त्रिसाहस्रं निष्कग्रीवसुभाससा नवनागसहस्राणि नागा चत गुणान् रथान् रथाश्चत गुणानस्वान् अश्वा चत स्नेहप्रक्लिन्नहृदयो यापयामास कोशलः श्रुत्वै धतृरुधुर्भूमात् नयन्तम्पतिकन्यका भग्नवीर्यासुधुर्मर्षा यदुभिर्गोवृषैपुरा तानस्यतः सरव्रातान् बन्तु प्रियकृत गाण्डीवी कालयामासन् सिंहशूद्रमृगानिव पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया रे मे यधुना वृषभो भगवान् देवकीसुतः श्रुतकीर्ते सुताम् भद्रा उभय मे पितृष्वसुः कैकेयं भ्रातृभिर्दत्ता कृष्णसन्धर्दनादिभिः सुतां च मध्रातिपतेर्लक्ष्मणां लक्षणैर्युतां स्वयंवरे जहारैः स सुपर्णसुतामिव अन्याश्चैवं विधा भार्या कृष्णस्यासहस्रसख भौमं हत्वा तन्निरोध आकृदाश्चारुदर्शनाः इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तार्थे अष्टमघिष्युत्वाह नामाष्टपञ्चशब्धमोऽध्यायः सर्वत्र गोपिका गोविंद गोविंद सदगुरुनाथ महाराज की जय